अग्निश्च चमे म इन्द्रः इन्द्रश्च चमे सोमः सोमश्च चमे म इन्द्रः इन्द्रश्च चमे मे सविता सविता च चमे म इन्द्रः इन्द्रश्च चमे मे सरस्वती सरस्वती च क्षमे अ इन्द्रश्च क्षमे मे पूषा पूषा च क्षमे अ इन्द्रश्च क्षमे मे बृहस्पतिः बृहस्पतिश्च क्षमे म इन्द्रश्च समे मे मित्रः मित्रश्च समे न इन्द्रः इन्द्रश्च समे मे वरुणः वरुणश्च समे म इन्द्रः इन्द्रश्च समे मे त्वष्टाः त्वष्टा च समे म इन्द्रः इन्द्रश्च चमे धाता धाता च समे मा इन्द्रः इन्द्रश्च समे मे विष्णोः वैष्णुश्च समे मा इन्द्रः इन्द्रश्च चमेश्विनौः अश्विनौ च समे म इन्द्रश्च समे मे मरुतः मरुतश्च समे म इन्द्रः इन्द्रश्च समे मे विश्वे विश्वे च समे मे देवाः देवा इन्द्रः इन्द्रश्च समे मे पृथिवी पृथिवी च समे म इन्द्रः इन्द्रश्च चमे मेऽन्तरिक्षम् अन्तरिक्षम् च समे माः इन्द्रश्च समे मे द्यौः द्यौश्च चमे इन्द्रः इन्द्रश्च समे मे दिशः दिशश्च क्षमे म इन्द्रः इन्द्रश्च क्षमे मे मूर्धा च क्षमे म इन्द्रश्च क्षमे मे प्रजापतिः प्रजापतिश्च प्रजापतिरिति प्रजापतिः चमे इन्द्रः इन्द्रश्च चमे म इति मे अग्निश्च चमे म इन्द्रश्च